मार्कण्डेयपुराणम् अध्ययं ट्वेन्टिफैव् जड उवाच आगम्यस्वपुरं शोधपित्रोः सर्वमशेषतः कथयामास तन्वङ्गी यथा प्राप्ता पुनर्मृता नामसा च शरणौ श्वश्रुश्वशुरयोः शुभा स्वजनं च यथापूर्वं वदनाश्लेषणादिभिः पूजयामास तन्वङ्गी यथा यथा वयः ततो महोत्सवो जज्ञे पौराणां तत्र वै पुरे हृतध्वजश्च सुचिरं तया रेमे सुमध्यया निर्झरेषु च शैलानां निम्नगापुलिनेषु च काननेषु च रम्येषु तथैवोपवनेषु च पुण्यक्षयं वाञ्छमाना सापि कामोपबो गतः सह रेमे रम्यासु भूमिषु तथ कालेन महदा शत्रुजित्स नराधिपः सम्यक् वसुधां कालधर्ममुपेयिवान् ततः महात्मानं पुत्रं तस्य हृदध्वजम् अभ्यषिञ्चन्दराजानमुदाराचारचेष्टितं सम्यक् पालयतस्तस्य प्रजाःपुत्रानिवौरसान् मदालसायाः सञ्जज्ञे पुत्रप्रथमजस्ततः तस्य चक्रे पिता नाम विक्रान्त इति धीमतः वैभृत्या जहास्स मदालसा सावै मदालसा पुत्रं बालमुत्तानशायिनं पुल्लापनच्छलेनाह रुदमानमविश्वरम् शुद्धोऽशिरे तादनतेऽस्ति नाम कृतं हि ते पंचात्मक देश तवै तोदीषि कस्य हेद नवा भवान्न रोदी वैश्वजयसाध्यमीशनु विविधा विविध गुणस्ते गुणाश्चा सकले्रियषु भूदानि भूद भूतःपरी दुर्बला वृद्धि सामयाथेकुस नतेस्ति कश्य वृद्धिर्न चेष्ठि हा कुकेशीजमाणे दिज्येस्मिंस्तस्मिंश्च देहे मूढतां मा व्रजेथाः शुभाशुभैकर्मभिर्देहमेदन्मदादिमूढै सञ्चुकस्तेऽपि नद्धः तातेति किञ्चित्तनयेति किञ्चिदम्बेति किञ्चिद् दयितेति किञ्चिद् ममेदि किञ्चिन्न ममेदि किञ्चित् त्वम्भूतसङ्खं बहुमानयेथाः दुःखानि दुःखोपगमाय भोगान् सुखाय जानाति विमूढचेताका तान्येव दुःखानि पुनः सुखानि जानाति विद्वान् सुविमूढयेदासोऽस्तिसन्दर्शनमक्षियुग्मत्युज्ज्वलं तर्जनमङ्गनायाः कुचादिपिनं पिषितं खनं तत्स्थानं रथे नरकं न यानं क्षिधौ यानगदं च देहम् देहेऽपि चान्यः पुरुषो निविष्टः ममत्वबुद्धिर्न तथा यथा स्वे देहेदिमात्रं बदमूढतैषा इति श्रीमार्कण्डेयपुराणे मदालसोपाख्याने पञ्चविंशोऽध्यायः ओ